श्रीमद्भागवतमहापुराणं पञ्चं स्कन्ध अथ च यस्पीहवा आत्मसम्भावनेन स्वयमधमधमो जन्मतपो विद्याचारवर्णाश्रमवतो वरीयशो न बहु मन्येत सा मृतक् एव मृद्वाचारकरदमे निर्येवाक्षिरा निपातितो दुरन्तायातना ह्यस्नुते ये तु इह वै पुरुषा पुरुषमेधेन यजन्ते यास्य श्र्यो नृपशून् खादन्ति तास्य ते इव निहतां यमसदने याति यन्तो रक्षो गणाः शौनिका इव स्वधीते नामदाजान्त्रीकपिबन्ते नित्यन्ति च गायन्ति च शिष्यमाणायथेह पुरुषादाः ये तेह वा अनागसोरन्ये ग्रामे वा वैस्रम्भं कैरूपसितानोपं विस्रम्भ्यं जिजेविशूनशूलसूत्रादिषु प्रपूतान् क्रीडनकतया यातयन्ति तेऽपि च प्रेत्य यमि याचनासु प्रोतात्मानशुतृभ्यां चाभिहताः कङ्कवटादिभिः चेतस्तन्तश्चेङ्मतुण्डैराहन्यमाना आत्मशमलं स्मरन्ति ये ते ह्य वैभूतान्युद्वेजयन्ति नरा उल्बणस्वभावा यथा दण्डशूकासेऽपि प्रीत्या नरके दण्डशूकाके निपतन्ति यत्र निपदन्तशोकाः पञ्चमुखा सप्तमुखा उपसृत्य ग्रसन्ति यथा विस्मिन् विलेशयान् ये तेह वा अन्धावटं कुशूलगृहादिषु भूताले रुद्धन्ते तु सामुद्रा ते स्वेमोपवेश्य सगरेण वह्निना धूमेन निरुध्यन्ते यस्पेह वा अतिथिनभ्यागतान् वा मन्यो दीर्घक्षुरेव पापेन चक्षुषा निरीक्षते तस्य चापि निर्ये पापधिष्ठे रक्षिणे भद्रतुण्डागृधाः कङ्कां कवटादयोरुबलादुत्पादयन्ते यस्ते ह वा आढ्याभिं मरीं रङ्घकृतिस्तिर्यक प्रेक्षण सर्वतोभिविशङ्के अर्थविनाशचिन्तया परिशुच्यमालार्थिदेवदनो निवृद्धिमनवगतो समल ग्रह इवार्थमपि रक्षति स चापि प्रेत तदुत्पादलोत्कर्षणसंरक्षणं समलं समलग्रहशुचिमुखे नरके निपतति यद्रह विद्वग्रहं पापपुरुषं धर्मराजपुरुषा वायका इव सर्वतोङ्गेषु शूद्रैः परिवयन्ति देवं विधा नरकाय मालये सन्ति सतससहस्रसहस्रेषु सर्वेषु च सर्व एवा धर्मवर्तिनो ये केचिदेवन्दिता अनुदिता स्यामनिपतें पर्यायेण विशन्ति तथैव धर्मानुवर्तिन इतरत्र इह तु पुनर्भवेत् उभयं शेषाभ्यां निविशन्ति निवेद्यलक्षणमार्गम् आदावेव व्याख्यात एता बाले वाण्डकोशो यस्य चतुर्दधा पुराणेषु विकल्पित उपदीयते उद्गत भगवतो नारायणस्य साक्षान्महापुरुषस्य सविष्टम् रूपमात्ममाया गुणमयमनुवर्णितम् आदित पतति शृणोति श्रावयति स उपगेयम् भगवत परात्मानो ग्राह्यमणीम् श्रद्धा भक्ते विश्रद्धबुद्धिर्वेद श्रुत्वा स्थूलम् तथा सूक्ष्मम् रूपम् भगवतो यतिः स्थूले निर्जतमात्मानं शनैः सूक्ष्मम् धिया नयेदिति भद्वीपवर्सरिद्रनीं सरिदृणभसमुद्रपातादतिन्नरकभागणलोकसंसार गीतामयातो निपाम्भुतमीश्वरस्य सूलम् वपु सकलजेविनिकाय धाम इति श्रीमद्भागवते महापुराणे वैयासिज्ञां पश्चाद्सहस्रायां पारमहंस्यां संहितायाम् पञ्चमस्कन्धेन्दरकानुवर्णनं नाम षड्विंशोऽध्यायः इति पञ्चमस्कन्धः समाप्तः हरिः ओं तस्य